अपत्यं तु मृगाः सर्वे मृग्या नरवरोत्तमा वृक्षाश्च मृगमन्दायाः स्रुमराश्च परन्तप ततस्त्वैरावतं नागम् जज्ञे भद्रमनासुतम् ऐरावतस्सुतस्तस्या देवनागो महागजः हर्याश्च हरयोपत्यं वानराश्च तरस्विनः भद्रन्ते हर्याः पुत्रान् प्रचक्षते प्रजज्ञे त्वथ शार्दूली सिंहान् व्याघ्राननेकषः द्वीपिनश्च महासत्त्वान् सर्वानेव न मातङ्ग्यपि च मातङ्गानपत्यानि न राधिप दिशाम् गजन्तु श्वेताख्यम् श्वेता, श्वेता जनयदाशुगम् तथा दुहितरौराजन् सुरभिर्वै व्यजायत रोहिणी चैव भद्रन्ते गन्धर्वी तु यशस्विनी विमलामपि भद्रन्ते अनलामपि भारत रोहिण्याम् जज्ञिरेगावो गन्धर्व्याम् वाजिनः सुताः सप्तपिण्डफलान् वृक्षाननलापि व्यजायत अनलायाः शुकी पुत्री कङ्कस्तु सुरसा अरुणस्य भार्याशेनी शेनी तु वीर्यवन्तौ महाबलौ